श्रीमद्भागवत् महापुराणं दशमस्कन्धम् श्रीशोकुवाच एवं ब्रुवाणा विरहातुराभृशं रजस्त्रिय कृष्णविशक्तमानसाः विषज्जलज्जां रुदु श्म सुस्वरं गोविन्ददामोदर माधवे ते स्त्रीणामेवं रुदन्तेनाम् उदिते सवितर्यथ अक्रूरश्चोदयामास कृतमैत्रादिकोरथं गोपातमन्वसञ्जन्त नन्दाद्यासकटैस्ततः आदायोपायनं भूरि कुम्भान् गोरससंहृतान् गोप्यश्च दयितं कृष्णम् अनुव्रज्याणि रञ्जिताः प्रत्यादेशं भगवत काङ्क्षन्त्यश्चावत स्थिरे तास्तथा प्रस्थाने स्वप्रस्थाने यदुत्तमः सान्त्वयामास सप्रेमैरायास इति दोत्यकैः यावं यावदालक्ष्यते केतरि यावद्रेणुरथस्य च अनुप्रस्थापितात्मानोलेख्यानीोपलक्षिताः सा निरासानुवृत्तो गोविन्दविनिवर्तने विशोकाह्निर्निर्णयोर्गायन्त्य प्रियचेष्टितं भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप रथेन वायुवेगेन कालिन्दीमुखनाशिनीं ततोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् वृक्षषण्मो व्रज्य स रामो रथमाविशत् अक्रूरस्तावुपामञ्च निवेश्य च रथोपरि कालिन्द्याहृतमागत्य स्नानां विधिवदाचरत् निमज्य तस्मिन् सलिले जपन् ब्रह्म सनातनं तावेव तदृशी क्रूरो रामकृष्णौ शमन्वितौ तौ रथस्थौ कथमिह सुतामानकदन्धुभेहस्तर्हि स्वित्सन्दनेन स्त इत्युन्मज्ज्येष्ट तत्रापि च यथा पूर्वम् आसीनौ पुनरेव स न मज्जद्दर्शनं जन्मे मृषा किं सलिले तयोः भूयस्तत्रापि सूद्राक्षि स्तूयमानम् अहीश्वरम् सिद्धचारणगन्धर्वै असुरैन्नतकन्धरैः सहस्रशेषं देवं सहस्रफलमौलिनं नीलाम्बरं विसश्वेतं सिङ्गैश्वेतमिव स्थितं तस्योस्सङ्गे खलश्यामं पीतकोशेवासुषं पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणं चारुप्रसन्नवदनं चारुहासनिरीक्षणम् शुभ्रुं न संचारुकर्णं सुकं सुखपोलारुणाधरम् प्रलम्बपि वरभुजं तुङ्गासूरस्थलश्रियं कम्बुकण्ठं निम्ननाभिं बलिमन्पल्लवोदरं बृहन्कटितटशोडिकरभोरुद्वयान्वितं चारुजानुयुगं चारुजङ्घायुगलसंयुतम् तुङ्गगुल्फारुणन्नखम्ब्रातदीधीतिभिर्वृतं नवाङ्गुल्यङ्गुशुन्दलैर्विलसत्पादपङ्कजं सोमहार्ह मलिव्रात किरीटकटकाङ्गलैः कटिसूत्र ब्रह्मसूत्रहारण्णूपुरकुमुन्कुण्डलैः भ्राजमानं पद्मकरं शङ्खचक्रगदाधरं श्रीवस्त्रभक्षसंभ्राजद्गोशुभं वनमालिनम् सुनन्दनन्दप्रमुखैः पाशदैशनकादिभिः सुरेशै ब्रह्मरुद्राद्यै नवभिश्च द्विजोत्तमैः प्रह्लादनारदवसुपुन्प्रमुखैर्भागवोत्तमै तूयमानं पृथग्भावैर्वचोभि अमलात्मभिः श्रिया पुष्या गिरा कान्त्या कृता तुष्टे नयोर्जयाम् विद्यया विद्यया शक्त्या माया च निषेवितं विलोक्य सुभृतं प्रीतो भक्त्या परं परमया युतः हित्ननुरुहो भावपरिक्मिन्नात्मलोचनः गिरा गद्गदया स्तोषी सत्त्वामालम्बसात्मतः ब्रह्म मृध्नावहित कृष्णाञ्जलिपुटशनये ए श्रीमद्भागुते महापुराणे पारं चां शयितायां दसंस्कन्दे पर्वार्धे